शान्तनुर्वाच श्रुत्वा तव वरम् दाशव्यवस्थेयमहम् तव दातव्यम् चेत् प्रदास्यामि न त्वदेयम् कथञ्चन दाशौ वाच अस्याम् जायेतयः राजा पृथिवीपते त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव वैशम्पाय उवाच नाकामय ततम् दातुम् दाशाय शान्तनुः शरीरजेन तीव्रेण भारत स तदा दाशकन्याम् महीपतिः प्रतयाधस्ति नुरम कामोपहत चेतन तत कदाचिछोचनम शातनम ध्यानमस्थित पुत्रो दे व्रतभ्येतरम वाक्यम्रवीत सर्वोत क्षेम् विधेय सर्व पार्थिवा तत्मीहा दुखि ध्यान वज् राजजन भी भाषसी किंचन न चाश्वन विवर्णो हरण कृश व्याधिछा ते ज्ञात प्रतिकुयां तत्रुक्त पुत्रेण शा तु प्रत्यषत अ संशय ध्यानपथावत्स तथा शृणु अपत्यम नमे कुलले महति भारत शस्त्र सततम पौरषे पर्यवस्थित अता लोकानाशोचा पुत्रक कथंचितिवंगेय विपस्ती नुलम असंशय्चतादुता न चाप्यहम् वृथा भूयो दारान् कर्तुमिहोत्सहे सन्तानस्याविनाशाय कामये भद्रमस्तु ते अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः चक्षुरेकम् च पुत्रश्च अस्ति नास्ति च भारत चक्षुर्नाशे तनोर्नाशः पुत्रनाशे कुलक्षयः अग्निहोत्रम् त्रयी विद्या सन्तानमपि चाक्षयम् सर्वाण्येतान्यपत्यस्य कलाम् नार्हन्ति षोडशीम् एवमेतन्मनुष्येषु तम् च सर्वप्रजास्विति यदपत्यम् महाप्राज्ञ तत्र मेनास्ति संशयः एषा त्रयी पुराणानाम् देवतानाम् अपत्यम् कर्म विद्या च त्रीणि ज्योतीम्षि भारत यदिदम् कारणम् वैशम्पायन उवाच ततस्तत्कारणम् राज्ञो ज्ञात्वा सर्वमशेषतः देवव्रतो महाबुद्धिः प्रज्ञया चान्वचिन्तयत् अभ्यगच्छत्तदैवासु वृद्धामात्यम् पितुर्हृतम् तमपृच्छत्तदाभ्येत्यपितुस्तच्छोककारणम् का तस्मै स कुरु मुख्याय यथावत्परिपृच्छते वरम् शशंसकन्याम् मामुद्दिश्य भरतर्षभ सूतम् भूयोऽपि सन्तप्त आह्वयामास वै सूतस्तु कुरु मुख्यस्य तमुवाच महाप्राज्ञो भीष्मो वैसारधिंपितु। भीष्मवाच पितुः भीष्मौ वाच त्वम् सारथे पितुर्मह्यम् सखासि रथयुग्यतः अपि जानासि यदि वैकस्याम् भावोऽृपस्यतु यथा वक्ष्यसि मे पृष्टः करिष्ये न तदन्यथा सूतौ उवाच दासकन्या नरः श्रेष्ठ तदा वचनमब्रवीत् योस्याम् पुमान् भवेद् गर्भः स राजा पिता तव वरम् तदा स चापि निश्चयस्तस्य न च ते कथितम् वीर ततो देवव्रतो वृद्धये क्षत्रियैः सहितस्तदा अभिगम्य दाश राजम् कन्याम् वव्रेपितुः स्वयम् प्रतिजग्राह विधिवत् प्रतिपूज्य च अब्रवीच्चैनमासीनम् राज भारत दाश राज्यशुल्का प्रदातव्या कन्येयम् याचताम् वर अपत्यम् यद्भवेत् तस्याः परम् त्वमेव नाथः पर्याप्तः शान्तनोर्भरतर्षभ पुत्रशस्त्रभृताम् श्रेष्ठः किन्तु वक्ष्यामि ते कोहिसंबंधकं को हि सम्बन्धकम् श्लाघ्यमीप्सितम् यौनमीदृशम् अतिक्रामन्न अपत्यम् चैतदार्यस्य यो युष्माकम् यस्य शुक्रात् सत्यवती सम्भूतावरवर्णिनी तेन मे बहुशस्तात् पिता अर्थितश्चापि राजर्षिः प्रत्याख्यातः पुरामया न चाप्यासीत् सत्यवत्या भृशमर्थी महायशाः कन्यापितृत्वात् किञ्चित्तु वक्ष्यामि त्वाम् न राधिप बलवत्सपत्नतामत्र दोषम् पश्यामि केवलम् यस्य हि त्वम् सपत्नः सुरस्य वा न स जातु जीवे त्वयि क्रुद्धे परन्तप एतावानत्र दोषो हि नान्यः कश्चन पार्थिव एतज्जानीहि भद्रम् ते दानादाने परन्तप